हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे पञ्चदशाधिकशतमसर्ग भरतेन नन्दीग्रामम् उपेत्य श्रीरामपादुकयो राज्येभिषेक सदग्रे निवेदन पूर्वकम् तेन समस्तराजकीयकार्याणां सम्पादनं ततो निक्षेप्य मा कुरु अयोध्यायां दृढतः भरते शोकसन्तप्तो गुरुन् निदमथा ब्रवीत् नन्दी ग्रामं गमिष्यामि सर्वानां मन्त्र येत्र च तत्र दुःखम् इदं सर्वम् सहिश्चै राघवम् विना गतश्चाहो जीवं राजा वनस्थ स गुरुर्मम रामं पतिक्षे राजाय स राजा महायशः एतत् श्रुत्वा शुभम् वाक्यम् भरतस्य अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः सुभृशम् श्लाघनीयम् च यदुक्तम् भरत त्वया वचनम् भ्रातृवात्सल्यात् अनुरूपम् तवैव तत् नित्यम् ते बन्धुलुब्धस्य मार्गमार्यम् प्रपन्नस्य नानुमन्ये तप्मान् मन्त्रीणां वचनम् कृत्वा यथाभिम् प्रियम् अब्रवीत् सारथिम् वाक्यम् प्रथो मे युज्यतामिति प्रवृच्य वदनः सर्व मातृ समभिभाषते अरुहे श्रीमान् शत्रुघ्नेन समन्वितः आरुह्य तु रथं क्षिप्रम् शत्रुघ्न भरतो भव ययसु परमप्रीतो वृत्तौ मन्त्रे पुरोहितै अग्रतो गुरवः सर्वे वसिष्ठ प्रमुख द्विजः प्र सर्वे नन्दी ग्रामो यतो भवेत् बलं च तदनाहूतं गजा रथसङ्कुलम् रययो भरते याते सर्वेच च पुरवासिनः रथस्थे स तु धर्मात्मा भरतो भ्रातृवत्सलः नन्दी ययो व्ययो तूर्णम् शरस्यादायि पादुके भरतस्तु ततः क्षिप्रम् नन्दी ग्रामम् प्रविशत तूर्णम् गुरुन् निर्मभाषत एतद्राजम् मम भ्राता सप्तम् सन्न्यासमुत्तमम् योगक्षेमा वहेते मे पादुके हेम भूषिते भरतः संन्यासं पादुके ततः साब्रवी सर्वं प्रकृतिमण्डलम् छत्रम् धारते क्षिप्रम् आर्यपादो इमो आभ्याम् राज्ये सितो धर्म पादुकाभ्याम् गुरोर्मम भ्राता तु मयि संन्यासो निक्षिप्त सौहृदयम् तमिमम् पालयिष्यामि राघवागमनं प्रति क्षिप्रम् राघवस्य पुनः स्वयम् चरणस्य दक्ष्यामि स पादुकौ ततो निक्षिप्तभारोहम् राघवेर्ण समागतः निवेद्य गुरुवे राज्यम् भजीषे गुरुवर्तिताम् राघवाय च संन्यासं दत्त्वे मे वरपादुके राज्यं चेदं न योध्यात् धूतपापो भवाम्यहम् अभिचिक्ते तु काकुत्स्थे प्रवृष्टम् मुदिते जने प्रीतिर्ममा यशश्चैव भवेद्राजा चतुर्वणम् एवं तु विलपन्दिनो भरते स महायश नन्दीग्रामे क्रोधराजम् दुःखितो मन्त्रिभिः सह स्ववल्कल जटाधारी मुनिवेशे धर प्रभु नन्दीग्रामे वसद्धिर सैन्यो भरतः सदा रामायमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः चनकारी च प्रतिज्ञापारग सदा पादुके स्वभिषिच्याथ नन्दी ग्रामे वसत्तर वचनं छत्रम् धारयामास स्वयम् भरते शासनं सर्वम् पादुकाभ्यां निवेदयन् ततस्तु भरत श्रीमान् अभिषिचार्य पादुके सदधीन तदाराजम् कारयामास सर्वदा तदा हि यत् कार्यमुपैति किञ्चित् उपायनं चोपहृतं पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भर्तो यथा वेत् इत्यार्थे श्रीमद् रामायणे वाल्मीकीयादिकारे अयोध्याखण्डे पञ्चदशाधिकशतमसवर्गे प्रीतितारामचन्द्रारणमस्तु